अथ श्रीदक्षिणामूर्त्यष्टकम् विश्वम् दर्पण दृश्यमाननगरे तुल्यम् जान्तर्गतम् पश्यन्नात्मनि मायया वगिरिवाद्भूतं वार यथा निद्रया यः कुरुते प्रभातसमये स्वात्मान तस्मै श्री श्रीगुरुमूर्तये न इदम् श्रीलक्ष्मिनामूर्तये बीजस्यान्तरिवाङ्गुरो जगदिदं रार्विकल्पम् पुनः मायाकल्पितदेशकालकलना वैचित्र्यचित्रीकृतम् मायावीव विजृम्भयत्यपि महायोगी वयस्वेच्छया तस्मै श्रीगुरुमूर्तये न म इदम् श्रीदक्षिणामूर्तये यस्यैव स्फुरणम् सदात्मकमसत्कल्पात्मकम् भासते तत्त्वमसीदव चोदयत्या श्रितान् यः साक्षात्करणाद्भवे पुनरावृत्तिर्भवाम्बोनिधौ तस्मै श्रीगुरुमूर्तये नम इदम् श्रीदक्षिणामूर्तये घटादरस्थितमहादीपप्रभास्वरम् ज्ञानम् यस्य तु चक्षुरानिकरणद्वाराभिस्पन्दते जानामीतिदमेव भान्तमनुभाद्येतत्समस्तम् जगत् तस्मै श्रीगुरुमूर्तये न इदम् श्रीदक्षिणामूर्तये वीन्द्रियाण्यपि चलाम् बुद्धिम् च शून्यम् विदुः स्त्रीबालान्त जटोपमास्त्वहमिति भ्रान्ता वृशं वादिनः मायाशक्तिविलासकल्पितमहाव्यामो संहारिणे तस्मै श्रीगुरुमूर्तये न इदम् श्रीदक्षिणामूर्तये राहूग्रस्तदिवाकरेन्दुसदुषो मायासमाच्छादनात् सन्मात्रः करणोपसंहरणतो योऽभूत् सुषुक्तः पुमा प्राग स्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायते तस्मै श्रीगुरुमूर्तये नम इदम् श्रीदक्षिणामूर्तये बाल्यादिष्वपि जाग्रदा सर्वास्वस्थास्वपि व्यावृत्तास्वनुवर्तमाणवामित्यन्तः पुरन्तम् सदा स्वात्मानम् प्रकटीकरोति भजतां यो मुद्रया भद्रया तस्मै श्री श्रीगुरुमूर्तये नम श्री श्रीदक्षिणामूर्तये विश्वम् पश्यति कार्यकारणतया स्वस्वामि सम्बन्धतः शिष्याचार्यतया था तथैवपुत्राध्यात्मना भेदतः स्वप्ने जाग्रतिवायेन पुरुषो माया बिभ्रामि तस्मै श्रीगुरुमूर्तये न इदम् श्रीदक्षिणामूर्तये त्या भारिजराजरात्मकमिदम् यस्यैव मूर्त्यर्टकम् नान्यत्किञ्चन विद्यते विपुषताम् यस्मात् परस्माद्विभोः तस्मै श्रीगुरुमूर्तये न इदम् श्रीदक्षिणामूर्तये सर्वा मिति स्फुटीकृतमिदम् यस्मात् पुष्पिं स्तवे तेनास्य श्रवणात्तदर्थमननाध्यानाच्च सङ्कीर्तनात् सर्वात्मत्वमहाविभूतिसहितम् स्यादीश्वरत्वम् स्वतः सिद्ध्येतत्पुनरष्टधा परिणतम् चैश्वर्यमव्याहतम्